अथ पञ्चविंशोऽध्यायः वैशम्पायनवाच तत्काननम् प्राप्य नरेन्द्रपुत्राः सुखोचितावासमुपेत्य कृच्छ्रम् विजहृरिन्द्रप्रतिमा शिवेषु सरस्वतीशालवनेषु तेषु यतिंश्च राजा समुनींश्च सर्वांस्तस्मिन् वने मूलफलैरुदग्रैः द्विजातिमुख्या नृषभः कुरूणां सन्तर्पयामास महानुभावः इष्टेश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानां पुरोहितस्तत्र समृद्धतेजाश्चकारधौम्यः पितृवन्द्रपाणाम् अपेत्यराष्ट्राद्वसतां तु तेषां ऋषिः पुराणोऽतिथिरा तमाश्रमं तीव्र समृद्धते जा मार्कण्डेयः पाण्डवानां तमागतं ज्वलितहुताशनप्रभं महामनाः कुरु वृषभो अपूजयत्सुरषिमानवार्जितं महामुनिं ह्यनुपमसत्त्ववीर्यवान् स सर्वविद्रौपदीं वीक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च संस्मृत्य रामं मनसा तं विमना इव ब्रवीत् सर्वे ह्रिया सन्ति तपस्विनोमि भवानिदम् किं स्मयतीव हृष्टस्तपस्विनाम् पश्यताम् मामुदीक्ष्य मार्कण्डेय उवाच न तातहृष्यामि न च स्मयामि प्रहर्षजो माम् भजते न दर्पः तवा पदं त्वद्य समीक्ष्य रामम् सत्यव्रतं दाशरथिं स्मरामि स चापि राजा सह लक्ष्मणेनावने निवासं पितुरेव शासनात् धन्वीचरन्पार्थमयैव दृष्टो गिरेः पुरारश्यमूकस्य सानौ